अथैकविंशः सर्गः ततो निपतिताम् ताराम् श्रुताम् तारामिवाम्बरात् शनैराश्वासयामास हनुमान् हरियूथपः गुणदोषकृतम् जन्तुः अव्यग्रस्तदवाप्नोति सर्वम् प्रेत्य शुभाशुभम् शोच्या शोचसि कम् कश्च कस्यानुशोच्योऽस्ति देहे यस्मिन्बुद्बुदोपमे अङ्गदस्तु कुमारोऽयम् द्रष्टव्यो जीवपुत्रया आयत्याञ्च विधेयानि समर्थान्यस्य चिन्तया जानास्य नियतामेवम् भूतानामागतिम् गतिम् हि कर्तव्यम् पण्डितेनेहलौकिकम् यस्मिन् हरिसहस्राणि शतानि नियुतानि च वर्तयन्ति कृताशानि सोऽयम् दिष्टान्तमागतः यदयम् न्यायदृष्टार्थः सा मदानक्षमापरः गतो धर्मजिताम् भूलिम् नैनम् शोचितुमर्हसि सर्वे च हरिशार्दूलाः पुत्रश्चायम् तवाङ्गदः हर्यृक्षपतिराज्यम् च त्वत्सनाथमनिन्दिते ताविमौशोकसन्तप्तौ शनैः त्वया परिगृहीतोऽयमङ्गदशास्तु मेदिनी सन्ततिश्च यथा दृष्टा कृत्यम् यच्चापि साम्प्रतम् राज्ञस्तत्क्रियताम् सर्वमेष कालस्य निश्चयः संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् सिंहासनगतम् पुत्रम् पश्यन्ती शान्तिमेष्यसि सा तस्य वचनम् श्रुत्वा भर्तृव्यसनपीडिता अब्रवीदुत्तरम् तारा हनुमन्तमवस्थितम् अङ्गदप्रतिरूपाणाम् पुत्राणामेकतः शतम् हतस्याप्यस्य वीरस्य गात्रसंश्लेषणम् वरम् न हरिराज्यस्य प्रभवाम्यङ्गदस्य वा पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः न ह्येषा बुद्धिरास्थेया प्रति पिता हि बन्धुः पुत्रस्य न माता हरिसप्तमा न हि मम हरिराज संश्रयात् क्षमतरमस्ति परत्र चेहवा अभिमुख हत वीर सेवितम् मम सेवितुम् क्षमम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये किष्किन्धा काण्डे